गणेशपुराणम् उपासनाखण्डम् अध्यायं सेवेण्टी सेवेन् व्यास उवाच अन्येनाकारिकेनेदं वद तत् महद ब्रह्मोवाच जामदज्ञेन रामेण व्रतमेतत् सोपिकीर्तिजयं सोऽपि ज्ञानमायुर्दीर्घं च व्यास उवाच रामः कथं समुत्पन्नः कस्मात् कस्याम् पिदामः एतत् सर्वं सुविस्तार्यम् ब्रूहित्वं मम पृच्छतः ब्रह्मोवाच श्वेतद्वीपेदिविख्यातो जमदग्निर्महामुनिः मनसा सृष्टि संहारा निग्रहा्रहानी होंदित्रि कालजो देवास्कंसपत्णुका नामना नाम व्यगुंचा पत्म से नावद रदिरित्येव लोकेषु विख्यादाभूत्तदस्तु सा यया सम्मोह्यते सर्वं क्षमस्तद्वर्णनेतुकः यन्नेत्रशोभासम्प्राप्त्यै चकोराज्जलवासिनः हरिणाश्च तपस्चे सर्वने छन्दत्रिणाशिनः यदास्य शोभासम्प्राप्त्यै शेव मूलप्रकृतिरीश्वरी ईश्वरम् अनादिनिधनादेवीमूलप्रकृतिरीश्वरी श्यामजनिरामोऽसौ विष्णुर्योगेश्वरो यथा जमदग्निर्महाभागा साक्षादीश्वररूपिणः अतिसुन्दरगात्रोऽसौ साक्षान्मन्मथ मन्मथ मादा पितृवचकर्ता विख्यातबलपौरुषः देवद्विजगुरुप्राज्ञगोबोधिपूजने रथः वेदवेदाङ्गशास्त्राणां स्मृतीनामपि पाठकः वाक्ये बृहस्पतिसमः क्षमया पृथिवी समः गाम्भीर्येऽब्धिसमो यस्तु पित्रोर्वाक्यपरायणः पित्रो राज्ञां गृहीत्वा स निमेषारण्यमाययौ अनेकविद्याभ्यासेन मदिं कृत्वा परां स्थिरां तस्मिन् गदे तदा राजा कार्तवीर्यो महाबलः यस्य प्रतापादभवद्वश्यं भूमण्डलं सदा यस्मिल्लक्ष्मी स्थिरा विष्णो रंशभूदेखिलार्थते आजौ पञ्चशतं बाणान् सृजते रिपुकातकान् विख्याद विख्यातबलपौरुषः असंख्यादा गजा रथवाजी पदातिकः यस्य निर्गमने सैन्याच्छादयन्ति महीतलं वर्षाकाले यथामेका धाराभिर्व्योममण्डलं यस्य कम्भुस्वनं श्रुत्वा द्विषो यान्दिशो दश यथा सिंहस्वं श्रुत्वा मत्तमादङ्गकोटयः यदा ताली पञ्चशतं स्वेच्छया कुरुते नृपः तदा सनादं ब्रह्माण्डं कम्पदे मुनिसत्तमा असौ यदृच्छया यस्तच्छदुरङ्गबलान्विदः नीलवस्त्रधरो नीलच्छत्रस्तादृशसैनिकः वनानि सरिदो दुर्गान् पर्वतांश्च विलोडयन् नानामृगणान्वीक्ष्य विनिघ्नन्नापि कांश्चन तदस् सहयाद्रिशिखरे पश्यश्रमुम यहा कैलासशिखरे गिरीशालयृत्न्जा कश्य दुम स्थल भृत उवाच जमदग्निदीख्या इवापर मुनिरास्ते महाभाग महाभागशापानुग्रहकारकः यस्य दर्शनधः पापकोडयो यान्दिसंक्षयं इच्छा चेत्तमगन्तव्यं दर्शनं ते भविष्यति तव प्रसादात् सर्वेषामुपकारो भविष्यति ब्रह्मोवाच इति तद्वचनं श्रुत्वा गमनायोध्यतो नृपः निषेध यत् सर्वबलं श्रेष्ठानादायत्तत्क्षणाद ययौ तं मुनिशार्दूलं जमदग्निं तपोनिधिं ददर्शतं कुशासीनं ज्वलन्तमिव प्रणनामससाष्टाङ्गं ते सर्वे सहयायिनः नानाविशालशालासु कुञ्चवृक्षावलीषु च निषेधुसैनिकास्तेदु राजा तस्थौ मुनेः परः आसने मुनिनाधिष्ठे चतुर्भिपरिवारितः निशसाद ताजा कृद वीर्यसुद बली अपूज सवान्द्यार्ख्यरादि स मुनि प्रददौगा शिष्य सर्वानपूजयद नाना सरोवर जलेल चारुशीतले अमज्जन्त तदा सर्वे सैनिका मृगयार्दिताः शृण्वन् वेदनिनादांश्च शास्त्रशब्दांश्च पुष्कलान् अभिदो वादशब्दांश्च तच्छिष्यैः समुदीरितान् अब्रवीन्मुनिमुख्यं तं राजा राजीवलोचनः अद्य मे पितरौ धन्यौ जन्मज्ञानं तथा तपः पुण्यवृक्षोद्यफलितो यज्जातं तव दर्शनम् अद्य मे सम्पदो धन्याकुलधन्यं यशोऽपि मे परब्रह्मेदि यत्प्रोक्तं तदेव त्वं न संशयः आतिथ्यं तव दृष्ट्वैवं परितुष्टं मनो मम यदि श्रुत्वा तु तद्भ्राग्मिं स्मयन्निव प्रसन्नधीः कोऽसि कस्यास्य किं नाम किं कार्यं तव वर्तते इदिदम् परिपप्र च जानन्नपि मुनिस्तदा राजोवाच राज्ञां स्वकार्यं कर्तॄणां भवादृशनिरीक्षणाद नान्यत्प्रयोजनमुरुश्रेयसा जनितस्फुटं कृधवीर्यसुदोखं च कार्तवीर्य इति श्रुतः अनुज्ञातो गमिष्यामि तदोऽहं नगरं प्रति मुनिरुवाच मया श्राविमहाकीर्तिस्तत्र राजन्यसत्तम आसीत् त्वद्दर्शनाकाङ्क्षा जाता पुण्यैर्नसत्फला देह आत्मा तपोज्ञानमाश्रमो मम साम्प्रतम् अभू त्वदागमद्राजन् सार्थिकाः सर्वसम्पदः अकृत्वा भोजनं किञ्चित् कथं त्वं गन्तुमर्हसि मम श्लाखा भवेल्लोके न्यूनं किं तव विद्यते किञ्चिद्भुक्त्वा भुक्त्वा व्रजविभो। सनाधं कुरु मां प्रभो राजोवाच सत्यं भोजनकालोऽस्ति भोक्तव्यं च तवाज्ञया अन्ना भावे श्रोत्रियाणां जलं याच्च पिबेदपि तथाप्येदान् विहायाकं सैनिकान् गणनाधिकान् जलं पातुं न शक्नोमि कथं भोक्तुं समुत्सहे जाने कं मनसा ब्रह्म न शक्तिः सर्वभोजने भवद्दर्शनमात्रेण कृतकृत्यो व्रजेऽधुना मुनिरुवाच सिन्धाम्मा कुरुराजर्षे भोजयिष्ये ससैनिकम् चुर्विधेन चान किं तपस्वीना गृहे वानीम प्रभो क्षणं विश्राम्यम ती नद्याारुतरे शुभे यद पश्चाद्रक्ष्यसी कौतुकम उवाच अन्धः स विस्मयाविष्टो जगामहृतवीर्यजः वाक्यमाकर्ण्यदु मुनेर्नदीतीरं सुशोभनं मुनिः पत्नीं समाहूय वृत्तान्तं तं जगादताम् आहूय कामधेनुं तौ पुपूजदुः प्रार्थया क्षणतासुभ नव रक्षधे रक्षेु असंख्यात बलो राजा भोजनाय राजमंत्रि यथारुचि भवेतस्य ससैन्यस्य भुजिशुभे तथा कुणेन नोचे सत्यं लयं व्रजेत अकीर्तिश्च भवेल्लोके यधेच्छसि तथा कुरु एवं सम्प्रार्थिताभ्यां कामधेनुर्महापुरं निर्मायस्वप्रभावेन नानामन्दिरसुन्दरं नानारत्नमयं स्तम्भं शोभिना सभागृहम् नाना नानापुष्पददाचारू वाडिकाराममण्डितं नानाध्वजपदाकाढ्यं नानावादित्रनिस्वनम् अष्टापदानां भाण्डानां नानापङ्क्रिविराजितं चतुर्विधानसम्पन्नं नानाभोजनपङ्क्रिमद महातोरणशोभाढ्यं परिखावलयाङ्गितम् अनेकदासदासीभिर्विलसचारुवेदिकं निवारयन्ति लोकाश्च यत्र तत्र स्थिता नरः पुरो गन्तुं न चाज्ञास्ति जमदग्निमुनेरिति परिविष्टेषु पात्रेषु संख्यादीदेशु सर्वतः दीपप्रभासुरेषु नानाव्यञ्जनशालिषु सूपपायसपक्वान्ना पञ्चामृतयुतेषु च सखाद्यलेह्य चोष्यादि पेयपङ्क्तिविराजिषु सामुद्रपक्वनिम्बाभ्रामृदबिल्वादिशालिषु सिद्धेषु पात्रेषु मुनिस्तदा सा वाकारयच्छिष्यगणं तदानीं श्रीकामधेनोः परिपूर्णतोषादभोक्तुं ससैन्यं कृतवीर्यपुत्रम् यीगणेशणे उपासनाखंडे ओम।